हरि थी श्री सीता रामचन्द्राभ्य नमः अथ श्री वाल्मीकि रामायणे अयोध्याखण्डे शत तमः सर्गः श्रीरामस्य भरतं प्रति कुशल प्रश्न राजनीते उपदेश जटिलं चीर वसनं प्राञ्जलिं पतितं भुवि द दुर्दर्शम् युगान्ते भास्करं यथा कथञ्चिदभिविज्ञाय विवर्ण वदनं कृशं भ्रातरं भरतम् राम परिजयग्राह्य पाणिना आघ्राय रामस्तम्बूर्ध्नि परिष्वज्य च राघवम् अङ्के भरतमारोक्य पर्यपुच्छत सादरं क्व ते यदरण्यं त्वमागतः न हि त्वं जीवित तस्य वनमागन्तुमर्हसि चिरस्य पद पश्यामि दूराद्भरतमागतम् दुष्प्रतीकम् अरण्येऽस्मिन् किं तात वनमागतः कश्चिन्नो धर्ते तात राजा यत् तं ह्यागतः कश्चिन्न स राजा लोकान्तरम् गतः कच्चित् सौम्या न ते राज्यम् भ्रष्टम् बालस्य शाश्वतम् कच्चिश्रुषु च सेतास से, पितुः सत्य पराक्रमः कच्चिशरसो राजा कुशली सत्यसङ्गरः राजशूयाशु मेधानाम् अहर्ता धर्म निश्चितः स कच्चित् रामणो विद्वान् धर्मनित्यो माद्वितीक्षाकोणामुपाध्यायो यथावै तात पूज्यते तात कस्ये च कौसल्या सुमित्रा च प्रजावती सुखेन कच्चिदायात् देवी नन्दचिकैकै कच्छि विनयसम्पन्न कुलपुत्रो बहुजृतः अनसोयूनुष्ठा तत्कृतस्ते पुरोहितः कश्चिदग्नेश्युतै युक्तो विधिज्ञो मतिमान्दृजुः उतम् च होष्यमाणम् च काले वेदयते सदा कश्चिद्देवान् पितृम् भृत्याम् गुरुन् पितृ समानपि वृद्धाञ्च दातु वैद्यां च ब्राह्मणान् चाभिमन्यते ईश्वरस्य वरसम्पन्नम् अर्थशास्त्रविशारदम् सुदन्वानम् उपाध्यायम् कच्चित् तं तात मन्यते कच्चिदात्मसभा शूर श्रुतवन्तो जितेन्द्रियः कुलीनाश्चितज्ञाश्च उत्कृतास्ते तात मन्त्रिणः मन्त्रो विजयमुगुलम् हि राज्ञम् भवति राघवे सुसंवृतो मन्त्रिदूरे अमात्यै शास्त्रकोविदै कच्चिन्नि वशम् नैषि कच्चित् कालेव बुध्यसे कच्चिच्चाप्रदात्वेषु चिन्त्यर्थनिपुणम् कञ्चिन्मन्त्रयसेनैक कञ्चिन्न बहुभीषः कच्चित् मन्त्रितो मन्त्रो राष्ट्रम् न परिधावति कच्चिदा विनिश्चित्य लघुमूलम् बहुलियम् रभते कर्म न दीर्घयसि राघव कश्चिन्नो सुकृतान्येव कृतरूपाणि वा पुनः विदुषे सर्वकार्याणि न कर्तव्या निपाति वा कश्चिन्न तर्कैर्युक्त्या वा ये, ये तव वा मास्यै बुध्यते कश्चित् सहस्रे मूर्खाणाम् एकम् इच्छसि पण्डितम् पण्डितो ह्यश्चकृषु कुर्यान्निः श्रेयसमहत् सान्यपि मूर्खाणाम् यदुपासे महीपते अथवापि अयुतान्येव नासीतेषु सहायता एकोऽपि अमात्यो मेधावी शूरो दक्षो विचक्षण राजानं राजपुत्रं वा प्रापयेन्महतीं श्रियं कश्चिन् मुख्या महत्वैव मध्यमेषु च मध्यम जघन्या च जघन्येषु भुत्यापधति तान् पितृपैता मान् शुचिन् श्रेष्ठात् श्रेष्ठेषु कच्चित्तमम् कर्मसु कश्चिन्नौग्रेण दण्डेन भृशमुद्वेजिता प्रजा राष्ट्रे त्वावजानन्ति मन्त्रेण कैके सुत कश्चित् ताम् नावजानन्ति याजक पतितम् यथा उग्रपतिगृहीतारम् कामयानम् विवस्र्य उपाय कुशलम् वैद्यम् मृत्युसन्दोषणे शूरम् ऐश्वर्यकामं च यो हन्ती न सहन्यते कश्चिद्दृष्टश्च शूरश्च धृतिमान् मान मतिमान् शुचिः कुलीनैश्चानुरक्तश्च दक्ष सेनापतीकृतः बलवन्तश्च कश्चित्ते मुख्यायुद्ध विशारदा दृष्टापदाना विक्रान्त त्वया सत्कृत्यमानितः कच्चित् बलस्य भक्तं च वेतनं च यथोचितम् सम्प्राप्तकालं दातव्यम् ददासी न विलम्बते कालास्ति क्रमणे एव वे भक्तवे तनयोर्भृतः भक्तोऽप्यति कुप्यन्ति सोऽनर्थे सुमहान् कृतः कश्चित् सर्वे निरक्ता कुलपुत्रा प्रधानतः कच्चित् प्राणान्तवार्थेषु सन्त्यजन्ति समाहितः कच्चिज्जानपदो विद्वान् दक्षिणप्रतिभानवान् यथोक्तवादि दूतस्ते कुतो भरतपण्डितः कच्चिदष्टादशान्येषु स पक्षे दश पञ्च च त्रिभिः स्त्रीभिः विज्ञाते वेत्ति तान् चारकै कश्चित् पिपासान् हितान् प्रतियातां च सर्वदा दुर्बलान् नवज्ञाय वर्तसे रिपुसूदन कश्चिन्न लोकायतिकान् ब्राह्मणान् तात सेवसे अनर्थ कुशलाह्येते बालापण्डितमानिनः धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुध बुद्धिम् वीक्षिकीं प्राप्य निरर्थम् प्रवदन्ति ते वीरैरध्यूषिताम् पूर्वम् अस्माकं तातपूर्वकैः सत्यनामाम् दृढद्वाराम् अस्य ब्राह्मणे क्षत्रियैर्वैद्यैः स्वकर्म निरते सद जितेन्द्रियै महोत्साहे वृतामार्यै सहस्रज प्रासादे विविधाकारे वृतां वैद्य जनाकुलम् कच्चित् समोदितां स्फीताम् अयोध्यां परिरक्षसे कच्चित् चैत्य शतेजुष्ठ देवस्थाने प्रभाविश्च तड़ाक चोभित प्र नर नरक सामजोत्सव शोभि सुकृच्च सीमा पशुवांसा भी अभिवर्जि अजे मातृपूरम्य स्वापी पिवर्जि पर खी चोपिशो विवर्जितो नर पाप मम पूर्वैः सुरक्षितः कच्चिजनपदस्फीतम् सुखं वसति राघव कच्चित्ते लयिता सर्वे कुशी गोरक्ष जीविनः वार्तायम् संशुद्धस्तात् लोकोऽयं सुखमेधते तेषां गुप्ति परिहारी कच्चित्ते भरणं कृतं रक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिनः कचित् व्यः सान्तयसे कच्चित्तासे सुरक्षिताः कच्चिन्न श्रद्धधास्याम् कच्चिद्गुह्यं न भाषसे कच्चिन्ना गवनम् गुप्तम् कच्चित्ते सन्ति धेनुकाः कच्चिन्न गणिकाश्वानाम् कुञ्जराणां च तृप्यसि कच्चिद् मानुषाणाम् विभूषितम् उत्थायोत्थाय पूर्वाह्णे राजपुत्र महापथे कश्चन सर्वे कर्मान्त प्रत्यक्षास्ते विशङ्कय सर्वे पुनरु वा पुनरुत्सृष्ट मध्यमेव अत्र कारणम् दुर्गाणि सर्वाणि धनधान्यायुधोरके यन्त्रे च प्रतिपूर्णानि तथा शिल्पी धनुर्धरैः आयस्ते विपुलै कश्चित् कच्चिदल्पतरो व्ययपात्रेषु न दे कच्चित् कोशो गच्छति राघवे देवताते च पितर्थे ब्राह्मणाभ्यागतेषु च योधेषु मित्रवर्गेषु कश्चित् गच्छति ते व्यय कच्चिदार्योऽपि शुद्धात्मा क्षारिते चापकर्मण अदृष्ट चा शास्त्रकुशलैः न लोभाद्बध्यते शुचिः द्विते चैव पृष्ठ च काले दृष्ट स कारणः कच्चिन्नमुच्यते चोरो धनलोभान्न रजव विसवे कच्चिदाढ्यस्य दुर्बलस्य च राघव अर्थं विरागाः पश्यन्ति तवा मात्या बहु श्रुता यानि भित् विशस्तानां पतन्तश्रूणि राघव तानि पुत्र तानि पुत्र पशुघ्नन्ति प्रत्य कश्चित् वृद्धां च बालाञ्च वैद्यान्मुख्यां च राघव दानेन मनसा वाचा त्रिभिरे ते कश्चिद्गुरुं च वृद्धा च तापसान् देवतातिथीन् चैत्यां च सर्वान् सिद्धार्थान् ब्राह्मणा च नमस्यसि कश्चिदर्थेन वा धर्मम् अर्थं धर्मेण वा पुनः उभो वा प्रीतिलोभेन कामेन न विबाधसे कश्चिदर्थं च कामं धर्मं च जयताम् वर विभज्य काले कालन्य सर्वान् वरद सेवसे कच्चित्ते ब्रह्मणा शर्म सर्वशास्त्रार्थ गोविदः आशंसन्ते महापुरम्य सौरजानपदै सह नास्तिख्यम् अनृतं क्रोधं प्रमादं दीर्घसूत्रताम् अदर्शनं ज्ञानवताम् आलस्यम् पञ्चवृत्तिताम् एकचिन्तनमर्थानाम् अनर्थैश्च मन्त्रणम् निश्चितानाम् अनारभ्यम् मन्त्रस्य परिरक्षणम् मङ्गलस्य प्रयोगम् च प्रत्युत्थानञ्च सर्वतः कच्चित्त्वम् वर्धेताम् राजदोषान् चतुर्दशे दश पञ्च चतुर्वर्गान् सप्तवर्गम् च ततः अष्टवर्गम् त्रिवर्गं च विद्यार्थिस्र राघवे इन्द्रियाणाम् जयम् बुद्ध्व षड्गुण्यम् दैवमानुषम् मूर्त्यम् विंशति वर्गं च तथा प्रकृतिमण्डलम् जात्रादण्डविधानं च धियोनिसन्धि विग्रहो कच्चिदेतान् न यथा वेदनुमन्यते मन्त्रिभिः संय चतुर्भि कश्चित् समस्तै वृष्टैश्च मन्त्रं मंत्र ते बुध कश्चित् ते सफलः वेद कश्चित् ते सफल क्रिया कश्चित्ते सफला धारः कच्चित्ते सफलं श्रुतं कच्चिदेशैव ते, ते बुद्धि यथोक्ताय मम य राघव आयुष्या च यशस्या यां वृत्तिं वर्तते तातो यां च नः प्रपितामह तां वृत्तिं वर्तते कच्चित् या च सत्पथगाशुभ कच्चिद्वा दुरुपतं एको नाश्नासि राघव कश्चिदाशन्तभ्यो मित्रेभ्यो संप्रयच्छसि राजा तु धर्मेण हि पारयित्वा महीपतिदण्डरणाम् अवाप्य कृत्णाम् बुधां यथा वत् पितैश्च्युत स्वर्गमुपैति विद्वान् पित्या जीमल रामेणे वाल्मीकियादि काव्यरोढ्याखण्डे शततमः स्वर्ग श्रीसीता रामचन्द्रार्म